ऋषयवूचुः <laughs> अस्ति वै तव धर्मात्मन् विद्मो देवोपमं शुभम् अपत्यमनघं राजन् वयं दिव्येन चक्षुषा दैवोद्दिष्टं नरव्याघ्रा कर्मणेहोपपादया अक्लिष्टं फलमव्याघ्रो विन्दते बुद्धिमान् नरः तस्मिन् दृष्टे फले राजन् प्रयत्नं कर्तुमर्हसि अपत्यं गुणसम्पन्नं लब्धा वैशम्पाय न उवाच तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्ता आत्मनो मृगशापेन जानन्नुपहतां क्रियां सोब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् अपत्योत्पादने यत्नम् आपदित्वं समर्थया अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता इति कुन्ति विदुर्धीराः इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठिः न पावनमिहोच्यते सोऽहमेवं विदित्वैतत् प्रपश्यामि शुचिस्मिते अनपत्यशुभान् लोकान् न प्राप्स्यामीति चिन्तयन् मृगाभिशापान्नष्टं मे जननं ह्यकृतात्मनः नृशं सकारिणो भीरु यथैवोपहतं पुरा इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने षडे वा बन्धुदायादाः पुत्रास्ताशृणु मे पृथे स्वयं जातः प्रणीतश्च तत्समः पुत्रिकासुतः पौनर्भवश्च कालीनः भगिन्याम्यश्च जायते दत्त क्रीतः कृत्रिमश्च उपगच्छेत् स्वयं च यः सहोढो ज्ञातिरेताश्च हीनयो निधृतश्च यः पूर्वपूर्वतमाभावं मत्वा लिप्स्येत वैसुतम् उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि अपत्यं धर्मफलदम् श्रेष्ठं विन्दन्ति तस्मात् प्रहेष्याम्यत्वा हीनः प्रजननात् स्वयं सदृशा श्रेयसो वा त्वं विद्यपत्यं यशस्विनी इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुप्रथा संवादे ऊन विंशतमोध्याय